रुद्रास्साध्यास्तथादित्या वसवोथ था तथाश्विनौ योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् तपसा सिद्धिमन्विच्छ योगसिद्धिञ्च भारत पितृमातृमयी सिद्धिः प्राप्ता कर्म मयी च ते यद्यदिच्छन्ति कुर्वते तदनुग्रहात् तस्मात्तपःसमास्थाय कुरुष्वात्ममनोरथम् इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानाम् प्रव्रजने द्वितीयोऽध्यायः